अथर्ग्वेदे अष्टमाष्टके षष्ठोऽध्यायः ओ उभानू नन्ददिदर्थयेथे वितन्वासेधिजोमस्त्रापसे एव सध्वीचीनायातवे प्रेमजैगः सु दिने एव वृक्ष आतम् सजेथे मुष्टारे एव भर्मरे शुश्रयेथे प्रायोगेवश्वाध्याशासुरेथाः दूते बहिष्ठो यशसादने एषु मापस्थातम् महिषे वा आपपाना आच साकञ्जुजा आचफुलस्ये एव पक्षापश्वे वचित्रायजुरागमिष्टम् अग्निरिवदे वयोजोर्दे ये दिवांसा परिज्ञानेव यदशः पुरुत्रा आपीव अस्मे एव पुत्रोऽग्रेवरुचा द्रुपते एव तुर्यै गिर्ये एव पुष्ट्यै किरणे एव भुज्यै सृष्ट्यैवाने एव हवमागमिष्टम् वंसकेव पौषर्या आ शिंवाता आमित्रेव ऋता शतराशातपन्ता वाजे एवोच्चामय साकर्म्येष्ठामेषे एव सभर्या आपुरे एषा शृण्ये एव जर्भरे एतुर्फरे एतूनैतोषेव तुर्फरे एपर्फरिका उदन्यजेवजेमनामदेतामे एजराय वदनम् मरायु वज्रेवरन्दाम् मरायुक्षद्मेवार्थे एषु तर्परीथ उग्रा रुभो नामखर वज्राखरज्रुर्वायुर्नभर्फलक्षयत्रयीणाम् घर्मे ए सने लोभये एविता दुर्भरेफारिवारम् अतरेव च तरा चन्दनिर्णिङ्मलरङ्गामनन्या आनलग्मीः गृहन्ते एव गम्भरे ऐषुप्रतिष्ठाम्बादे एव गाधम् तरदे विदाथः स्वर्णे एव शासुरनु हि स्मराथोऽशे एव मनोभजतम् चित्तमप्राह आरङ्गरे भवद्घैरयेथे सारखेवगलिचीनपारे केनारे एव स्वेदमासिष्विदानाक्षामे एवसूजवसात्स चेथे रद्ध्याम स्तोमम् स नुजामवाजमानो मन्त्रम् सरथेहोपजातम् यशो न भक्वम् मधुगोष्वन्तरा भूतांशोः हविर्भिरेके स्वरितः स शचीर्मदन्त उत दक्षिणाभिर्नेजिह्यन्त्यो नरके पताम आविरभून्महिमाघो ॐनमेषाम् विश्वम् जीवन्तमसोदिरमोचि महिज्योतिःपितृभिर्दत्तमागा आदुरः पन्था दक्षिणाया अदर्शि उच्चादिविदक्षिणावन्तो अस्थुर्ये अश्वदाः सहते सूर्ये एण हिरण्यदा अमृतत्वम् भजन्ते वा दैवी एपूर्तिर्दक्षिणादेव यज्ञानखवारिभ्यो नहि ते वृणन्ते अधानरः प्रयत दक्षिणासोपद्यभियापहवः वृणन्ति शतधा आरम्भाजुमर्कम् स्वर्विदम् नृचक्षसस्ते अभिजक्षते हभिः ते वृणन्ति प्रचयच्छन्ति सङ्गवे ते दक्षिणान् वुहते सप्तमा आतरम् दक्षिणावान् प्रसमो हूत तमेवमन्ये तृपतिञ्जनाम् यः प्रसमो दक्षिणा माभिवाज तमेव ऋषिन्दमु ब्रह्माण्डमाहुर्यज्ञम् सा मगामुखशासम् स शुक्रस्य तन्दो वेदतिस्रो यः प्रसमो दक्षिणया रथ दक्षिणाश्वम् दक्षिणाकान्ददाति दक्षिणाचन्द्रमुदयद्धिरण्यम् दक्षिणान्नम् अनुतेजो न आत्मा दक्षिणाम् न भोजामम् रुर्नन्यर्थमे युर्नरिष्यन्ति न व्यथन्तेह भोजाः इदम् यद्विश्वम् भुवनम् स्पृष्टैतत्सर्वम् दक्षिणेभ्यो ददाति भोजाजिग्युःसुरभिञो निमग्रे भोजाजिग्युर्वध्वा अय्यासुवासाः भोजाजिग्युरन्तः पेयं सुराः या भोजाजग्युर्ये अहोदाः भोजायाश्वम् समृजन्त्याशुम् भोजाया आस्ते कन्याशुम्भवा भोजस्येलम् पुष्करिणी भवेश्म परिष्कृतम् देववानेव चित्रम् भोजमश्वा अस्तुष्ठुवाहो वहन्ति सुरद्रथो वर्तते दक्षिणायाः भोजन्दे ए वासो वतापरे तु भोज शत्रो समनीकेषु चेताः किमिच्छन्ते सरभा प्रेतमानर्दूरे ह्यद्वाजपुरिः पराजैः का स्मेहि दैकापरितज्ञासेत्कथम् रसाया अतरः पया अंसि इन्द्रस्य दोचेरिचिताचरामिव इच्छन्दे ये प्रणयो लिथेन्वाः अतिष्कलो ओभियसातम् न आवत्तथा आ रसाया आतरम्पया अंसि केद्रङ्गिन्द्रः सरमेकादृशेकायस्येदम् धूतेरसरः परागात् आचगच्छाहन्मित्रमे एनादथा माथा गवाङ्गोपतीर्णो भवाति नाहन्तम्बे एतदभ्यन्तभर्त्स यस्येदम् धूतेरसरम्परागात् न सङ्गो ओहन्ति स्रवतो इन्द्रे एण यद्धे इमा गावः सरमे या ऐच्छः परिदिवो अन्ता अन्तुभगे पतन्ति एना अवसृजातयुध्युतास्माकमायुधा सन्ति दिग्मा रन्यावः प्रणयोपचांश्यनिकम् यास्तन्वः सन्तु पापेः अधृष्टो भये तलास्तु सन्ता बृहस्पतिर्ल उभयानमिलात् अयम् निधिः सरमे अद्रिबुद्धो अद्रि गोभिरश्वेभिर्वसुभिर्दिष्टः रक्षन्दितम् पणयोजेषु गोपादेकुपतमलकमाजगन्ध एहलमन्निषयः सोमसिता अयास्यो अङ्गिरसो नमग्वाः त एतमूर्वम् विभजन्त को, को नामथैतद्बृहः पणयोपमन्नित एना ससा े एतभ्रातृत्पन्नोऽस्व स्रत्वमिन्द्रो ओ विधुरङ्गिरदश्च घोराः गोका आ मामे अच्छदजदा यमपात इतपणयोपरे एयः दूरमितपणयोपरि एय उद्गावो ओयन्तु मिनते रलेन बृहस्पतिर्य अविन्दन्निगोहल्हा स्वो भोग्रावाणऋषयश्च विप्राः ते एवदन् प्रथमा ब्रह्म किल्भिषेको ओपारः स लिलोमा वीणुहरास्तप उग्रोमयोभो रापो ओ देवेः प्रथमजाकृतेन सोमो राजाः प्रथमो ब्रह्मजायाम् पुनः प्रायच्छदघृणीयमानः अन्वर्तिता वरुणो मित्र आसेदग्निर्होताहस्तगृह्यानिनाय हस्तेनैव ग्राह्य आधिलस्या ब्रह्मजायेयमिति चेदवो वचन् न दूताजप्रह्येतस्थ एषा तथा आराष्ट्रम् गुपितम् क्षत्रियस्य देवा एतस्यामवदन्तपूर्वे सप्त ऋषयस्तपसे ये निषेदो भीमाजाया ब्राह्मणस्योपनीता दुर्धान् दधाति परमेव्यो ओमन् ब्रह्मचारी चरतिवे विषद्भिषस्स देवानाम् भवत्ये कमङ्गम् तेन जायामन्मविन्द बृहस्पतिः सोमे येन नीताम् जुह्वा अन्नदेवाः पुनर्वै देवा ददुः पुनर्मदुष्याः उत राजा आनः सत्यम् कृमजायाम् पुनर्ददुः पुनर्दाय ब्रह्मजायाम् कृत्वी देवैर्मिकिल्बिषम् ओर्जम् पृथिव्या भक्त्वायोरुगायमुपासते समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः आचवः मित्रमहश्चिकित्तान् बन्धुतः कविरसि प्रचेताः तनोनपात्मसकृतस्य जानान्मध्वासमञ्जन्स्वतया सुजिह्वा मन्मानिधेभिरुतयज्ञबृन्धन् देहे वत्रा च कृणुह्यद्भरन्नाः आयुक्वा आरीभ्यो वन्द्यश्चाया आह्यज्ञे वसुभिः सजोषा आह वन्देवानामसि यः वहोतास एनान्यक्षीषितो यदीयान् प्राचीनम् बर्हि प्रदिशा आपृथिव्यावस्तो ओरस्याज्यते अग्रे अह्नाम् युप्रथते वरे एयो देवेभ्यो अदितये स्योरम् वेदस्पतेया विश्रयन्ताम् परिभ्यो न देवेर्द्वारो बृहतेर्विष्प्रमिन्वा देवेभ्यो भवत सुप्राजणाः आशुष्पयन्ति यजते उपाके उषासानक्ता आसदतान्ययोनौ दिव्ये योषणे बृहते सुरुक्मे अधिश्रियम् शुक्लपि सन्नधाने दैव्या होतारा प्रथमासुवाचामिमानायज्ञम् मनुषो यजध्यै प्रचोदयन्ता विदथेषु कारु प्राचीनम् ज्योतिः दिशन्ताः आनो यज्ञम् भारती तु येत्विलामनुष्पतिहचेतयन्ते तिस्रो देवैर्बर्हिरैरम् श्रोरम् सरस्वती स्वपसः सदन्तोद्यावाः पृथिवीजनित्रे रूपैरपिम् सद्भुवनानि विश्वाः मद्य होदृषितो यदीयान्देवम् द्रमिह यक्षि विद्वान उपावसृजत्मन्याः समञ्जन् देवानाम् पातरुधा हवींषे वनस्पदिशमिता देवो अग्निःस्पदन्तु हव्यम् मधुना कृतेन सद्यो जातोऽव्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः अस्य होतुः प्रतिश्रिदस्य वाजिस्वाहा कृतम् हविरदन्तु देवाः िणः प्रभरद्ब्रह्मनीषाम् यथा यथा मतयः सन्ति दृढाम् इन्द्रम् सत्यैरेरयामा कृतेभिः स हि वीरोगिरणः कृतस्य हि सदसो जेतिरद्योत्सङ्गास्तेजो वृषभो गोभिरानट् उदतिष्ठत्तविषेणारवेण ना महान्ति चित्संविव्याचारजांसि इन्द्रकिरश्रुत्या अस्य वे एतसहि जिष्णुः आन्येनाम् गृण्वन्नच्युतो भुवद्गोः पतिर्दिवः स न जा अप्रतीतः इन्द्रो अनन्धामहतो अर्णवस्य उताभिनादङ्गिरोऽभिर्गृणानः पुरोणि चिन्द्रता नारजा अंसि दाधारजो धरुणम् सत्यता आदा इन्द्रो अदिवः प्रतिमानम् पृथिव्या विश्वा आवेदसमनाहन्ति सुष्ठम् महे विद्यामातनोत्सूर्येण चास्कम्भचित्कम्भनेन स्कभीयान् वज्रेण निः तत्रमस्तलदेवस्य शूशुवानस्य मायाः विधृष्णोऽत्र धृषता जघन्धाथाभवो भगवन् बाह्वोजाः स चन्द्रयदृषतः सूर्येण चित्रामस्य केतवो रामविन्दन् आयन्नक्षत्रम् लघुषे दिवो न पुनर्यतोनकिरद्धानुवेद दोरङ्गिरः प्रसमा जग्मुरा सामिन्द्रस्य याः प्रसवे शस्रुरापाः क्व स्विरग्रङ् क्वबुध्न आः सा मापोमध्यङ् क्वपो नो रमन्ताः सृजसिन्धोङ्ग्रहिणा जग्रसानामादिदेताः अस्तमा दे पार्थिवावसो अन्यस्मे जग्मुः सो नृता इन्द्रपूर्वीः इन्द्रविव प्रतिकामम् सुतस्य प्रातः सावस्तबहि पूर्वपे एतिः हर्षस्वसन्दवेषु रशत्रो ओनुक्थेऽभिष्टे वीर्या आप्रभ्रवाम यस्तेन मनसो जी ये यानेन्द्रतेन सोमपेया आययाहि तूयमाते हरजः हरित्वतावर्त्यसादोर्यस्य श्रेष्ठये रूपये स्पन्नम् स्पर्शयस्व अस्माभिरिन्रहिभिर्हुवानस्सध्रे चे नो माहादयस्वारिषद्य यस्यत्यत्ते महिमानम् मदेष्विमे महीरोदसेनाभिविक्ता ततो हरिमिन्द्रयुक्तैः प्रियेऽभिरे या हि प्रियमन्नवच्छ यस्य शश्वत्पपिबाङ्ग्रशत्रो नकृत्यारण्याः चकर्थ स ते पुरन्त्रिषे मि स ते मदाय सुत इन्द्रसोराः इदम् ते पात्रम् सनवित्तमिन्द्रपिपासोपमेनाशतक्रतो पूर्णाः वोमधिरस्य मद्धोऽजम् विश्वविदभिहर्यन्ति देवाः विहित्वामिन्द्रपुरुधा जनाः सोहितप्रयसो वृषभाक्वयन्ते अस्माकम् ते मधुमत्तमा नीमा भुवन्सवनाथेषु हर्य प्रथ इन्द्रपूर्व्याणि प्रनूनम् वीर्या आवोचम् कृतानि सतीनमन्युरश्रथाजो अद्रिम् सुवेदनाम कृणोर्ब्रह्मणेकाम् विषु से एतगणपते गणेश त्वामाहुर्विप्रथमम् कवीना नरते त्वत्क्रियते किञ्च नारे महामर्गम् ए बोधिवसुपते सखे एनाम् त्यसुष्मा भक्ते चिताभजाराजेस्मान् तवस्य द्यावापृथिवी सते एतसा विश्वे एषद्देवैरनुसुष्णमावताम् यलैति वृन्दानो महिमानमिन्द्रियम् नीत्व भी सोमस्य क्रतुमाम् अवर्धत तवस्य विष्णुर्ममानमोजसाम् शुन्दधन्वान्मधुरो विलक्षते ेवेभिरिन्द्रो ओ मघवा सजावभिर्वृत्रवाङ्ण्यः वृत्रेण यदहि नाभ्रदा युधा समस्थिता युधजेषम् समाविदे विश्वे एते अत्र मरुतः सहत्मनावर्धन्नुग्रमहिमानमिन्द्रियम् तज्ज्ञान एवं यबाध सपृथः प्रापश्यद्वीरो अभिपौंस्य व्रणम् अपृष्ठदत्रिमवसस्य आदिन्द्रः सत्रादपिषेरपत्य न परे ये योद्यावा आपृथिवी अपासत अवा आपरधृषितो वज्रमाय संशेवम् मित्राय वरुणाय दाशुषे इन्द्रस्यात्रतविषेभ्योऽपि रक्षिणायतो अरम्भयन्तमन्यवे वृत्रय्य दुक्रोऽव्यगृष्टतो च सापोऽभ्रतम् तमसा परे हे वृतम् या वीर्या आणि प्रथमानि कर्ता आमहित्वे वितमानौ समीयतोः न्तमोऽवदध्वसे हत इन्द्रो अमह्ना पूर्वो ऊतापपत्यत विश्वे एदेवासोमथवृष्ण्या आलिते वर्धयन् सोमवत्यावजस्य जाः लध्वम् वृत्रमहिमिन्द्रस्य हन्मनाग्भिर्नजम्भैः सृष्पन्नमावयत भोरिरक्षे एभिर्वचनेभिरलक्मभिः सख्येभिः सख्यानिप्रवो ओचत इन्द्रोऽधुनिम् जनूरिम् च दम्भयच्छद्धामनस्याशृणुतेरभीतये त्वम् पुरोण्यापराः पश्यायेभिर्मंस एमचनानिशंसन् सुगेभिर्विश्वा आदुरितातरेम विदोषुण उर्विया गाधमद्यासमन्तात्रिवृतम् व्यापतुस्तयोर्जुष्टिम् मातरिश्वाजगाम दिवस्पज्योतिषाणा अवेशन् ्यजिक्युः कवयो निदानं परे एषु यागुक्ये एषु व्रतेषु चतुष्कवर्दायुवतिः सुपेशाघृतप्रतीका वयुनाः निवस्ते तस्याम् सुपर्णावृषनानिशे एर्यत्र देवादधिरेभाः गतेयम् एकः सुपर्णः समुद्रमाविवेशस इदम् विश्वम् भुवनम् विचष्टे तम् पाके सुवर्णम् विप्रायाः कवयो वचोऽभिरेकम् सन्तम् बहुधा कल्पयन्ति छन्दा अंसि च दधतो अध्वरे सुग्रहान् सोमस्य मिमते द्वादशः कल्पयन्तश्चन्दा अंसि च दधत आद्वादशम् यज्ञम् चतुर्दशान्ये महिमानो अस्य गन्धीरा आवाचा प्रणयन्ति सप्ता आत्मा आनन्तेऽर्थङ्ग इह प्रभो दद्येन पथा प्रविबन्धे सुतस्य सहस्रधा पञ्चदशान्युक्था यावद्यावा आपृथिवे तावदि तत् सहस्रधा महिमानः सहस्रञ्यावद्ब्रह्मविष्ठितम् तावदेवाकच्छन्दसांयोगमावे एरः कोऽधिष्ठ्याम् प्रतिवाचम् पपादृत्विजा आमष्टमम् शोरमा हुरु हरे इन्द्रस्य निचिकायकस्वित् भोम्या अन्तम् पर्येके एतरन्तिरथस्य घोषु युग्दासो अस्थुः श्रमस्य राजम् विभजन्त्येभ्यो यदा यमो भवलिहर्ये हितः चित्र इच्छिषोस्तरुणस्य वक्षथो नयो मातराः वप्येति धातवे अनोधाय दिजीजनदधा जनुपवक्षसद्यो बहिदूत्या अन्तरन्न अग्निरहनामधायजन्नपस्तमः संयोवना युवते भस्मना दता अभिप्रभुराजुक्वाद्भ इदो तंद्धुणृ न प्रोथमानो यवसे पृशाः तम् भोविन्न दृशतन्येवन्दुम् प्रोथन्तम् रवन्दमर्णवम् आसावन्निन्न शोदिषा विरक्षिनम्भयूनृतन्न सरजन्दवर्धनः वि यस्य ते चेयसारस्याजरथक्षोर्णवाताः परिषन्त्यच्युताः आरण्वासो इष्टजे स इदग्निः कण्व तमः परस्यान्तरस्य तरुषः अग्निः पातु कृडतो अग्निः सूरे लग्निर्ददातु ते शामभो नः स्वाचिन्दमायशक्यसे सुवित्युसुच्यवा नो यपोद्यापो नद्युम्नैरभिसन्ति मानुषा ऊर्जो ओनपात्सहसा पन्यदि कोपस्तुतस्य मन्नते वृषावाक् त्वां स्तो ओषामत्तया सुवीराद्राघेयायुःप्रतम् रथाना इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुता सविषयो वोचन् हि कृणतश्च सूरीन्वषद्वषळित्यूर्ध्वासो अनक्षन्न वो न महित्यूर्ध्वासो अनक्षन्न पिबासो मम् महत इन्द्रियाज पिबाहा वृत्राजहन्तवेषमिष्ठा पिब राजेशवसे होयमा नः अस्य विभक्ष्मतः प्रस्थितस्येन्द्रसोमस्य परमासु तस्य स्वस्तितामनसामादय स्वार्वाचीनोरेव ते सौभगाय ममत्वदिङ्ग्यः सोम इन्द्र मम तुल्यः सूयते पार्थिवेषु ममतुलेन परिपश्चकर्थमत्तुलेन निरिणासि शत्रो गव्या सुतस्य प्रभृतस्य मद्धः सत्राखेदामरुषः वृषस्व निग्वालिभ्राशयन् भ्राश्यान्यवस्थिरा तनु हि उग्रायते सहो बलन्द्रदामिप्रतेत्या शत्रोन्द्रिगतेषु दृष्ट या अर्य इन्द्रतनु हि श्रवांस्योज स्थिरेपथन्वनोऽभिमातेः अस्मद्यग्वावृधानः इदम् हविर्मघवन्तुभ्यम् प्रातम् प्रति सम्राणहृणानोगृभाय तुभ्यम् सुतोमघवन्तुभ्यम् पक्वोऽद्धेन्द्रविपदप्रस्थितस्य अध्येदिन्द्रप्रस्थितेमा हवीम् शिचनोदधिष्पजतोत कामाः ेन्द्रादिभ्याहम् सुपदस्यामियन्मिसिन्धाविव प्रेरयन्नावमर्कैः अयापरिचलन्ति देवाये अस्मभ्यम् धनदा उद्भिदश्च नवाहु देवाः क्षुधमिद्वधन् न तु रुताचिमुपगच्छन्ति मृत्यवाः पुतो रयिकृणतो नोपदस्यत्युता वृणन्मर्डिता रन्नविन्दते य आध्याय चकमानाय पित्वोन्नवान्सन्द्रपिता यो ओपजग्मुषे स्थिरम् मनः सेवते पुरोतो युत्समर्डिता रन्नविन्दते समिद्धो यो यो गृहवेददात्यन्नकामाय चरते कृशाय परमस्मै भवति यामहूता उता परेषु सखा आयम् न तसखायो न तदा आदिसख्येतुवेसमानाय विद्वः अपा आस्मात्प्रेयान्न ततोको अस्ति प्रणन्दमन्यमरणम् चिदिच्छेत् प्रणेयादिन्नाथमानाय दव्यान्द्राघीयाम् समनुपश्येदबन्धाम् वो हि वर्तन्ते रथ्ये एव चक्रान्यमन्यमुपतिष्ठन्तराजायाः मोघमन्नम् विन्द्रे अप्रेताः सत्यम् प्रवे वि वध इच्छ तस्य नार्यमणम् पुष्यति नो सखा आयम् केवलाघो भवति केवलादी कृषन्नित्थालहाशितम् कृणोति यन्नध्वा नमवभङ्गे चरित्रैः वदन् ब्रह्मावदथोपनीयान् वृणन्नाभिरृणन्तमभि अधिपदो एकपाद्भूयोऽद्विपदोऽपि चक्रमेऽद्विपा त्रिपादमभ्येति पश्चात् चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन् पङ्गेरुपतिष्ठमानः समौ सिद्धस्तौ न समम् विविष्टः सन् मातरा चिह्नसमम् दुहाते यमयोश्चिन्न समा वीर्याणि ज्ञाते चित्सन्तौ न समम् प्रणीतः अग्नेऽहम् सिन्या अत्रिणन्दे जन्मद्येष्व स्वेक्षये शुचिमुद्रत उत्तिष्ठसि स्वा आहुतो घृतानि प्रतिमोदसे यत्त्वा स्रुतः समस्थिरन् स आहुतो विरोचते अग्निरीलेऽन्यो गिरा स्रुचा प्रतीकमज्यते घृतेनाग्निः समज्यते मधुप्रतीक आहुतः रोचमानो विभावसुः जनमाणः समिध्यसे देवेभ्योऽहव्यवाहन तन्ता आहवन्तमर्त्या आह तम् वर्ता अमर्त्यम् कृतेनाग्निम् सपर्यत अदा आभ्यम् गृहपतिम् अदा आभ्येन शोतिषाग्ने रक्षः स्पन्दः गोपालतस्य देदिः दे सत्वमग्ने प्रचकेन प्रत्यो ओषया धान्याः रुक्षये एषु दन्ता आगीर्भिरुक्षया आहं यवाहंसमेधिरे यजिष्ठम् वानुषेदने यदि वा इति मे मनोगामश्वम् सनुयामिति कुवित्सोमस्यापामिते प्रभाता आ उन्मापीता अयम्सत कुवित्सोमस्यापामिति उन्मा आपीता अयम् स तथमश्वा आ उपमापतिरस्थितपाश्रापुत्रमिव प्रियम् कुवित्सोमस्यापामिति अहम् दृष्टे एव बन्धुरम् पर्यजामि हृदा मतिम् कुविच्छोमस्यापामिति अहिमेः अक्षिपच्चनाच्छान्सुः पञ्चतुष्टयाः कुविच्छोमस्यापामिते अहिमे रोदसी उभे अन्यम् पक्षम् चनप्रदे कुविच्छोमस्यापामिते अभिद्याम् महिना भुवमभि पृथिवेम् महेम् कुवित्सोमस्यापामिते हन्ताहम् पृथिवेमिमान्यलजा निहवेहवाः कुवित्सोमस्यापामिते ओषमित्पृथिवे महञ्जङ्घनाः नीहवेहवाः कुवित्सोमस्यापामिते दिवि मे अन्यः पक्षो ओधो अन्यमते कृषम् कुवित्सोमस्यापामिते अहमस्मि महाभिनभ्यमुदे एषितः कुवित्सोमस्यापामिति गृहो याम्यरङ्गृतो देवेभ्योऽहव्यवाहनः या मस्यापामिति इति अष्टमाष्टके षष्ठोऽध्यायः